अथ ना सदीयसूक्तम् नासदासीन् नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् किमा वरिवः कुहकस्य शर्मन् अम्भः किमासीद्गहनं गभीरं न मृत्युरासीदमृतं न तर्हि नरात्र्या अहन न आसीत् प्रकेतः आनीदवातं स्वधया तदेकं तस्मात् धान्यन्न परः तम तममासीत् तमसा गूढमग्रे प्रकेतं सलिलं सर्वमा इदं तुच्छ्येनाभ्वपिहितं यदासीत् तपसस्तन्महिना जायतैकं कामस्तदग्रे समवर्तताधिमनसो रेतः प्रथमं यदासी, सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्यां कवयो मनीषां विततो रश्मिरेषाम् अधः स्विदासीदुपरि स्विदासीत् रेतुधासन् महिमानासन् स्वधा अवस्तात् प्रयतिः परस्ता को वद्धा वेद कह प्रवोचत् कुत जाता कुत इयं अर्वाग्देवा अस्य विसर्जने नाथा को वेद इयं विसृष्टिर्यत आ बभुवं यदि वा दधे यदि वा न यो अस्याध्यक्षः परमे व्योमन् सोऽङ्गवेद यदि वा न वेदम् सोऽङ्गवेद य दिवानवेद ॐ शान्तिः शान्तिः शान्तिः